मुद्गलपुराणं खण्डं 5 लम्बोदरचरितम् अध्यायं 23 त्रि गाणपत्यदीक्षावर्णनं श्रीगणेशाय नमः मुद्गल उवाच अधो शृणु महाभागगाणपत्यस्वरूपकं येन त्वं गाणपत्ये वै पदे सुनिपुनो भवेः नरो गणेशभक्तिं यो भवेत्कर्तुं समुद्यतः गणेशप्रीतिकामार्थं दीक्षायुक्तो भवेदयम् गणपत्यं सुशान्धिष्ठं गुरुं वेदार्थपारगं नत्वा तं संवदेत्पूर्वं दीक्षां देहि महाप्रभो त्वमेव गणराजोऽसि गणपत्यपरायणः मां कुरुष्व महाभागगणपत्यं सुशीलकम् एवं पृष्ठो गुरुशिष्यं वदे दृष्ट्वा सुशीलकं श्रौधस्मार्थक्रियायुक्तं गणेशभावलालसं शिक्षयेदादौ धर्मान् गाणेश कान् परान् तां स्तुभ्यम् कथयाम्येव शृणु सर्वसुखप्रदान् परान्नम् भक्षयेन्नैवालोकयेन्न रजस्वलाम् परस्त्रीगमनम् क्वापि न कुर्यान् मनसापि सह स्वार्थाय क्रोधसंयुक्तो न भवेल्लोभसंयुधः अभक्ष्यभक्षणं नैव कुर्यात् हिंसां कदापि न गुरुद्रोहं च पैशून्यं ज्येष्ठानामपमानकं वेदशास्त्रादिमार्गेभ्यो हीनं नैव समाचरेत इहामुत्र विरक्तः स भवेद्ब्रह्मपरायणः इत्यादिविधान्धर्मानुपदिश्यमनुं दिशेद आदौ कृत्रादिकं तस्मै दापयेत् च ततः परं गाणपत्यान् समाज्ञाप्य सुदिनं त्ववलोकयेद् अथवा गणराजस्योत्सवदां तिथिमादराद चतुर्थीं शुक्लपक्षस्थां वा कृष्णामवलोकयेद गणेशप्रियकालं वा समालोक्य सुसिद्धिदः गुरुशिष्यायमन्त्रं वै दद्याद्भक्त्यार्धमादराद शृणु तत्र विधिं दक्ष कथयामि सुखप्रदं शुचौ मण्डपिकां कृत्वा गोमयेनावलेपयेद् मृण्मयां तु स्वयं तत्र वेदिं कुर्याद्विचक्षणः चतुरस्रां च तन्मध्ये दिक्षु संस्थापयेत्कटान् आदौ गणेशयन्त्रं स्वं कुङ्कुमेनात्र कारयेद् स्वेष्ठमष्टगणेशानान् पूजयेद्विधिपूर्वकं दीक्षायुक्तांश्च काणेशान् पूजयेत्स ततः परं तेभ्यो भूषणवस्त्रादीन् दापयेच्छाढ्यवर्जितः गाणेशेनैव मन्द्रेण स जपं कारये तु तैः पुरश्चरणसङ्ख्याकमथवा लक्षमादराद अथवा दशसाहस्रमथवा च सहस्रकं तद्दस्यांश्येन होमं वै कुर्यात्तत्र महामदिः तदो वैकुर्यात् वैकुर्यात्पूर्णाखुदिं तदः पुनः सम्पूज्य विघ्नेशम् सप्रणम्य ततो गुरुम् प्रार्थयेत्सर्वभावेन शिष्यम् मां तारय प्रभो मन्त्रम् देहि महाभाग, महाभागगाणपत्यं विशेषदः पुनर्गुरुम् समभ्यर्च्य ततः सकलशम् पुनः स्थापयेत्स्वेष्ठदेवाढ्यम् गाणेशेनैव मन्त्रदः तत्र विघ्नेश्वरम् ध्यात्वा पूजयेत्स्वल्पमार्गदः ततो वस्त्रम् समाच्छाद्य मस्तके गुरुसंयुतः प्रणम्यस्वगुरुं तत्र प्रार्थयेद्वदमन्त्रकम् संसारतारणार्थाय देहि मन्त्रम् द्विजोत्तम एवम् गुरो महर्षिश्च प्रार्थितस्थं सुशिष्य वै गणेशम् मनसा ध्यात्वा मन्त्रं शिष्याय दापयेत् ततस्तान् कलशान् गृह्य पूर्वदिक्रमतश्च तैः अष्टोत्तरशतम् मन्त्रम् जपंस्तम् स्नापयेद्गुरुः एकैकसिद्धिदप्रोक्तकलशस्नानमात्रतः ब्रह्मभूय करःप्रोक्तो मध्यमः सर्वसिद्धिदः स्नादम् शिष्यम् समादाय गणेशम् प्रणिपत्य च शिष्येण पूजयेद्देवम् ततस्तं स विसर्जयेत् प्रणमेद्गणपत्यां स्तां तदो दद्याच्च दक्षिणां पुष्कलां शाढ्यहीनः स भोजयेत्तान्महायशाः मोदकापूपलड्डूक पायसान्नैर्महामदे सूक्ष्मतण्डुलसंयुक्तैर्नानापक्वान्न मिश्रितैः यथेष्टं भोजयित्वा वै प्रणमेत्स पुनः पुनः प्रार्थयेत्तान्विशेषेण तारिदोऽकम्भवार्णवाद संभारम् गुरवे दद्याद्गुरुवंशं नमेत्सदा गणपत्यान् प्रदृश्यैवोद्धायतांश्च नमेन्नरः गणपत्यान् समालोक्य ननमेद्यः प्रजापदे तेन विघ्नेश्वरः साक्षाद्धिंसिदो नात्र एवम् दीक्षाम् समागृह्य गणेशम् पूजयेत् सदा तत्समीपे तु मन्त्रस्य पुरश्चरणकं चरेद अध धर्मान् प्रवक्ष्यामि शृणुतान् सुसमाहिदः दन्तकाष्ठमभुक्त्वा तु न गच्छेद्गणपालयम् मैथुनं यदि कृत्वा देवालयं च गमिष्यदि स सद्यो भ्रंशमागच्छेदधस्नात्वा चदं व्रजेद अशुद्धवस्त्रसंयुक्तो विघ्नराजं न संस्पृशेद परवस्त्रधरो भूत्वा पूजयेन्न गणाधिपम् छिद्रयुक्तं न वस्त्रं स धारयेद्देवपूजने मौनेन पूजयेद्देवं यथाविधि गणेश्वरं गणेश पूजने सकृतो यदि वाजं वदेन्नरः पूजान्तराय दोषेण विघ्नयुक्तो नरः। अभ्यङ्गसंयुतो यस्तु स्थानहीनो यदा भवेद् देवालयम् समागच्छेत् तदा भ्रंशमवाप्नुयात् उपानस्पर्शसंयुक्तः पादक्षालनवर्जितः गणेशानालयम् गच्छेद् विघ्नयुक्तो भवेन्नरः गन्धादिचर्चितो भूत्वा यो नार्च्यगणनायकं देवालयं गदो गतो दैवाल्लभेद्भ्रंशं समानवः अजीर्णदोषसंयुक्तो यस्तिष्ठेद्देवसन्निधौ उद्गारथसमीरेण विघ्नयुक्तो भवेत्तु सः भेरी शब्दमनावाद्यगणेशालयगो भवेद सभ्रंशं च लभेद् दक्षदेवगुह्यप्रभञ्चनाद देवालयं समागत्या नृतवाचं वदेन्नरः अथवा देवस्तुत्यादिहीनां सभ्रंशिदामियाद नित्यं तत्र प्रजानाथ संयदो देवसन्निधौ मर्यादां पालयं स्तिष्ठेत् स ईक्षितफलं लभेद यथा शास्त्रं विचारेण गणेशं सर्वसिद्धिदं यो भजेद्गाणपत्यस्थं स गणेशो भवेन्नरः ॐ तत्सदितिः श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गाणः पत्यदीक्षावर्णनं नाम त्रयोविंशोऽध्यायः ओम्